चाणक्यनीति अध्यायम् फैव् गुरुरग्निर्द्विजातीनाम् वर्णानाम् ब्राह्मणो गुरुः पतिरेव गुरुस्त्रीणाम् सर्वस्याभ्यागदो गुरुः यथा चतुर्भिक्तनकम् परीक्ष्यते निकर्षणच्चेदनतापताडनैः तथा च दुग् पुरुषः परीक्ष्यते त्यागेन शीलेन गुणेन कर्मणा तावद्भयेषु भेदव्यं यावद्भयमनागदम् आकदं तु भयं वीक्ष्य प्रहर्तव्यमशङ्कया एकोदरसमुद्भूता एकनक्षत्रजातकाः न भवन्ति समाशीले यथा बदरकण्डकाः अन्यायार्जितवित्तपूर्णमुदरं गर्वेण तुङ्गं शिरो रे, रे जम्बुकमुञ्च मुञ्च सहसा नीचं सुनिन्द्यं वपुः निःस्पृहो नाधिकारी स्यान् न ना कामो मण्डनप्रियः नाविदग्धप्रियं ब्रूयात् स्पष्टवक्दानवञ्चकः मूर्खाणां पण्डिताद्वेष्या अधनानां महाधनाः पराङ्गना कुलस्त्रीणाम् सुभगानां च दुर्भगाः आलस्योपगदा विद्या परहस्तगदं धनम् अल्पबीजं हदं क्षेत्रम् दं सैन्यमनायकम् अभ्यासाद्धार्यते विद्या कुलं शीलेन धार्यते गुणेन ज्ञायते त्वार्य नेत्रेण गम्यते वित्तेन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते मृदुना रक्ष्यते भूपसत् स्त्रिया रक्ष्यते गृहम् अन्यथा वेदशास्त्राणि ज्ञानपाण्डित्यमन्यथा अन्यथा तत्पदं शान्तं लोकाक्लिश्यन्ति चाक््यथा दारिद्र्यनाशनं दानं शीलं दुर्गदिनाशनम् अज्ञाननाशिनी प्रज्ञा भावनाभयनाशिनी नास्ति कामसमो व्याधिर्नास्ति मोहसमो रिपुः नास्ति कोपसमो वह्निर्नास्ति ज्ञानात् परं सुखम् जन्म मृत्यू हि यात्येको भुनक्र्येकशुभाशुभम् नरकेषु पतत्येक एको यादिपरां गतिम् तृणम् ब्रह्मविदस्वर्गस्तृणं सूरस्य जीवितं। जिदास्य तृणम् नारी निःस्पृहस्य तृणम् जगत् विद्यामित्रम् प्रवासे च भार्यामित्रम् गृहेषु च व्याधितस्यौषधम् मित्रम् धर्मो मित्रम् मृतस्य च वृथा वृष्टिः समुद्रेषु वृद्धा तृप्तस्य भोजनं वृद्धा दानं समर्थस्य वृद्धा दीपो दिवापि च नास्ति मेघस्रमं तोयं नास्ति चात्मसमं बलं नास्ति चक्षुःसमं तेजो नास्ति धान्यसमं प्रियम् अधना धनमिच्छन्ति वाचं चैव च दुष्पदाः मानवाः स्वर्गमिच्छन्ति मोक्षमिच्छन्ति देवताः सत्येन धार्यते पृथ्वी सत्येन तपते रविः सत्येन वादिवायुश्च सर्वं सत्ये प्रतिष्ठितम् चलालक्ष्मीश्चलाः प्राणाश्चले जीवितमन्दिरे चलाचले च संसारे धर्म एको हि निश्चलः नराणां नापितो धूर्तः पक्षिणां चैव वायसः च दुष्पादं शृगालस्तु स्त्रीणां धूर्ता च मालिनी जनिता चोपनेता च यस्तु विद्यां प्रयच्छति अन्नदाता भयत्राता पञ्चयिते पितरस्मृताः राजपत्नी गुरोः पत्नी मित्रपत्नी तथैव च पत्नी मादास्वमादा च पञ्चयिता मादरस्मृताः ॐ